नारदपुराणं पूर्वार्धम् अध्यायम् एट्टि एय्ट् सूद उवाच शुत्वेद्धं यजनं विप्रा मन्त्रध्यानपुरःसरं सर्वासामवताराणां नारदो देवदर्शनः सर्वाध्याय जगन्मातुश्रीराधाया समर्चनम् अवतार अवतारकलानां हि पप्रनयान्विदः नारद उवाच धन्योऽस्मि कृत कृत्योऽस्मि जादोहम् त्वत्प्रसादः पज्जगन् मातृमन्त्राणां वैभवम् श्रुतवान्मुने यथा लक्ष्मीमुखानां तु अवतारा प्रकीर्तिताः तथा राधावराोदिच्छा वैभव यख्या काूप यदर राधाता शेष सिद्धिदुवा वचस्त नारद सेधेसुद सनत्कुमर प्रवाच ध्या राधा पदाबुज सनत्कुम उच शृणु विप्रवक्ष विप्र रफस्यादिह्यक राधावत चरित भजता मिष्टिद चंद्रवी चलिता सख्यौ सुप्रिये सदा मालावती मुखाष्ठानां चन्द्रा वल्याधिपा स्मृता कलावतीमुखाष्ठानामीश्वरी ललिता मदा राधाचरणपूजायामुक्ता मालावदीमुखाः ललिताद्धीश्वरीणां तु नामानि शृणु साम्प्रतं कलावधिमधुमधिविशाखा श्यामलाभिता शैव्या वृन्दा श्रीधराख्या सर्वास्तुल्यविग्रहः सुशीला प्रमुखाश्चान्याः सख्यो द्वात्रिंशदीरिताः ता शृणुष्व महाभाग नामदप्रवदामि ते सुशीलां शशिलेखा च यमुना माधवीरधिः कदम्बमालाकुन्दी च जाह्नवी च स्वयं प्रभा चन्द्रानना पद्ममुखी सावित्री च सुधामुखी शुभा पद्मा पारिजादा गौरिणी सर्वमंगला। कालिका कमला दुर्गा विरजा भारतीसुरा गङ्गामधुमधी चैव सुन्दरी चन्दना सदी अपर्णा मनसानन्दाद्वा त्रिंशद्राधिका प्रियाः कदाचित् चलिला देवी पुं रूपा कृष्ण विग्रह स सर्जषोडशकलास्ता सर्वास्तत्समप्रभाः ताः सा मन्द्रम् तथा ध्यानम् यन्द्रार्चादिक्रमम् तथा वर्णये सर्वतन्त्रे शुरहस्य मुनिसत्तमवादो मरुचाग्निवह्नि धराक्ष्मे जलचरिणि विमुखं चरशुचिविभो वनस्वशक्तय स्वराः प्राणस्तेजस्थिरा वायु वाय। वायुश्चाभिप्रभा तथा ज्य कुमभ्रम् तथा नादो दावकः पाद इत्यध व्योमरयशिखि गोत्रतोऽयं शून्यजवीद्युतिः भूमिरसो नमो व्याप्तं दाहश्चाभिरसाम्भुज वियस्पर्शश्च हृद्धं स हालाग्रासो कलात्मिकाः चन्द्रावली च ललिता नायके मधे ग्राषष्ठिता स्वयं राधा स्वयं शक्तिस्वरूपिणी च शास्तु षोडशकला द्वात्रिंशत् तत्कला स्मृताः वाङ्मयं निखिलं व्याप्तमाभिरेव वा मुनीश्वर दलिता प्रमुखाणां तु षोडशीत्वमुपागता श्रीराधासुन्दरी देवी तां त्रिखैपरिकीर्त्यदे कुरकुलाहिचंद्रलिलिभुदे मवर्ग ते धा यदम हृत्प्राणेला हम सदास्वैर्लितेद यदा, सदा यदा क्रम हंसाद्ययाद्या मध्यास्यादादिमध्यस्थहंसया तृतीया तृतीया प्रकृतिसैव तुर्या तैरन्त्यमायया आसु तुर्या भवन्मुक्त्यायि तिस्रोण्या स्युश्च संपते इति त्रिपुरसुन्दर्या विद्या सरुमदसमीजिता दाहभूमिरसाक्ष्म स्वर्वशिनी बीजमीरिदं प्राणोरसशक्तियुध कामेश्वर्यक्षरमहद शून्यमम्बुरसवह्निस्वयोगान्मोहनीमनुः व्याप्तं रसाक्ष्मा स्वयुधं विमला बीजमीरिदं ज्ञान भो दाहवह्निस्वयोगैः स्यादरुणामनुः जयिन्यास्तु समुद्दिष्ट सर्वत्र जयदायकः कं नभो दाहसहितं व्याप्तक्षमा स्वयुदं मनुः सर्वे स्वयासमाख्यातसर्वसिद्धिकरपरः ग्रासो नभो दाहवह्नि स्वैर्योक्तकौलिनी मनुः यदैर्मनुभिराष्ट्राभिश्शाक्तेभिर्वर्गसंयुक्तैः वाग्देवतान्तन्यासस्याद्यन देव्यात्मको भवेत् रन्ध्रे बाले तथाज्ञायां गले हृदि तथा नाभावाधारके पादद्वये मूलाग्रकावधि षड् दीर्घाढ्येन बीजनकुर्याश्चैव षडङ्गमं लोकितं ललितां बाणचापपाश्च शृणीकरैः दग्धानां कामराजाङ्गेयन्द्रिदामुदुदां स्मरेद मध्यकदेवी त्वे कैव षोडश परदस्तता यदस्तस्मातनौ तस्यास्त्वन्या पञ्च दशार्चयेद् ऋषिशिवचन्द उक्ता देवता ललितादिकः सर्वसामपि नित्यानामावृतिर्नाम संजये पदलेदु प्रयोगांश्च वक्ष्याम्यग्रे सविस्तरम् अध षोडशनित्यासु द्वितीया या समेधिदा कामेश्वरीदितां सर्वकामदां शृणु नारदा शुजिस्वेन युधस्त्वाद्यो ललिता स्याद्वितीयकः शून्यमग्नियुधं पश्चाद्रयो व्याप्तेन संयुधम् प्राणो प्राणोरसग्निसहितशून्ययुग्मं चरान्वितं नभो गोत्रा पुनश्चैषां दाहेन समयोजिता अम्बुस्याचरसंयुक्तम् नवशक्तियुतं च हृद एषा कामेश्वरी नित्या कामदैकादशाक्षरी मूलविद्याक्षरैरेव कुर्यादङ्गानि षट्क्रमाद एकेन हृदयं शेषं तावताधो द्वयं द्वयाद तद्वद्भिर्नयनं तद्वदस्त्रमेघेन कीर्तितं दृक् श्रोत्रनासाद्वितये जिह्वा कृन्नाभिगुह्यके व्यापकत्वेन सर्वाङ्गे मूर्धादिप्रपदावधि न्यस्य द्विद्याक्षराण्येषु स्थानेषु तदनन्तरं समस्तेन व्यापकं तु पूज, नित्यपूजासु चोदितम् यनदेवी सुप्रसन्नादताधीष्टमयत्नदगां बालार्ककोटिसङ्घाषं माणिक्यमुकुडोज्ज्वलां हारघ्रैव्य काञ्चीभिरूर्मिका नूपुरादिभिः मण्डितां रक्तवत्सनां रक्तभरणशोभितां षड्भुजां त्रीक्षणामिन्दुकलाकलितमौलिकां पञ्चाष्ट षोडश द्वं द्वाष्टकोण चतुरस्रगं मन्दस्मिदसद्वक्त्रां दयां मन्धरवीक्षणं पाशाङ्कुशौ च पुन्रेषु चापं पुष्पशिरीमुखं रत्नपात्रं सीधुपूर्णं वरदं बिभ्रतिं करैः तद प्रयोगान् गुर्विदसिद्धेमत्रे दुः साधकः hmm. तृतीया मद वक्ष्यामि गमिनी कामेशरियादिस््रसच्चा पथिरा रस धरा युक्स चरा पश्चास्थिरा पश्चाद्रस स्मृतका शून्य संयुक्त रस से तदन स्थिरा भूसहिता गोत्र सदा होग्निरसस्थिरा नभस्तमरुदायुक्तं रसवर्णसमन्वितं तदो रसस्थिरा पश्चान्मरुदा सह योजिताम् अम्बखंसचरोधिक्तो रसोधस्यास्थिरा पुनः स्थिराधरान्विदाहंसो व्याप्तेन चरेण रसस्थिरा तदो व्याप्तं भोयुधं शून्यमग्नियुग रसस्थिरा तद साग्निशून्यं तवियुधो मरुदरय शून्यं चाग्नियुधं हृदाहंसा च तत्परम् रसस्थिराम्बुज वियत्स्वयुधम् प्राणयेभज दाहो ग्रीयुग्रसस्तस्मा स्थिराक्ष्मा दाहसंयुधा सदरस्याजी सह रस्याजवी पूर्वविद्या तत्तीयदक्रमाद च दुष्टयम् अधारणानां रसस्तदनु च दाहोऽम्बुमरुदा युक्तो व्योम्नि साग्निरसस्तुदः व्याप्तमवेम्बुज दाहो गोत्राचरयुधा ृद्धरासहितं दाहरयौ चरसमन्युधौ रसस्थिरा तद प्राणोरसाग्निसहितो भवेद शून्ययुग्मं चरयुधं तद परं शून्ययुग्मं च गोत्रा स्याद्वाहयुक्ताम्बुनाचरः प्राणोरसाचरयुधो गोत्रव्यसि मधः परं गोत्रा, गोत्रा दाहमरुद्युक्ता त्वम्बुन्यासमदो भवेद् युक्तो नाम्भश्च भूयुक्तं शून्यं च केवलं चैव रसश्च सचरः स्थिरा वियदम्बुयुदं दाहस्त्वग्नियुक्सयुत शुचिः भूमि रसाक्ष्मा स्वयुधा पञ्चैकान्तरिता स्थिराः तदन्तरितबीजानि स्वसंयुक्तानि पञ्च तानि क्रमाज्या सचरो रसो भूश्च नभोयुधंसश्चरयुधो द्विष्य तद प्राणो रसाग्नियुग शून्ययुग्मं चरयुधं हृदा होम्बुमरुद्युदः व्योमाग्निसहिदं पश्चाद्रसश्च मरुता स्थिरा शून्यं सा अग्निनभश्चैव चरेण सहितं तथा अम्बुपश्चाद्वियतस्मान्नभश्च मरुदन्वितं शून्यं व्याप्तं च दद्युक्तं रयदाहस्वह्निभिः हंसः सदा होम्बगुरसा चरस्वैः संयुधो भवेद। हंस सदाह वह्निस्वैर्युक्तं मन्त्र्य मुदिर् मुदिर् मुदीरितं सप्त त्रिंशश्चतार्णै स्यान्नित्य सौभागमालिनी अङ्गानि मन्त्रवर्णैः स्युराध्ययन हृदुदीरितं ततश्च दुर्भि शीर्षं स्याचिका त्रिभिरुदीरिता गुणवेदाक्षरै शेषाण्यङ्गानि षडिधिक्रमाद अरुणामरुणा कल्पां सुन्दरीं सुस्मिताननां त्रिनेत्रां बाहुभिषड्भिरुपेदां कमलासनां काक्लारपाशपुण्ड्रेक्षुको दण्डान्वाम बाहुभिः दधानां दक्षिणैपद्ममङ्गुशं पुष्पसायकम् तथा विधाभिः परितो युधां शक्तिगणैस्तुतैः अक्षरोक्ताभिरन्या विस्मरोन्मादमदात्मभिः येषा तृतीया कथिता वनिता जनमोहिनी चतुर्धिं शृणु विप्रेन्द्र नित्यक्लिन्ना हंसस्तु दाह वह्निस्वर्युक्तप्रथममुच्यते कामेश्वर्यास्तृदीयादिवर्णानामष्टकं भवेद हृदम्बुमरुदा युक्तः स वै ये वैकादशाक्षरः एकादशाक्षरी चेयं विद्यार्नैरङ्गकल्पनम् आद्येन मन्त्रवर्णेन हृदयं समुदीरितं द्वाभ्यां द्वाभ्यां द्विशेषाणि अङ्गानि परिकल्पयेत। न्यस्ये दङ्गुष्ठमूलादिकनिष्ठाग्रां दमूर्ध्वगं शेषं तद्वलयेन्यस्य हृदृच्छोत्रे न सोऽर्ध्वयोः त्वजिध्वचे च पायौ च पादयोरर्णकान्यसेद अरुणामरुणा कल्पमरुणां शुकधारिणीम् अरुणस्रग्विलेपां तां चारुस्मेरमुखाम्बुजां नेत्रत्रयोलसद्वक्त्रां भाले कर्माम्बुमौक्तिके विराजमानाम् विराजमानां मुकुटलसदर्देन्दुशेखरा चतुर्भिर्बाहुभिपाश्यमङ्गुशं पानपात्रकम् अभयं बिभ्रदिं पद्ममध्यासीनां मदालसां ध्यात्वैवं पूजयन्नित्यकिन्नां नित्याम् स्वशक्रिभिः पुण्या चतुर्थी गदिता नित्यापिन्ना क्वया मुने क्वनिता नवनीतस्य दाविकाग्निर्जयादिना भूस्वेन युक्ता प्रथमं प्राणोदाहेन तद्युतः रसोदाहेन तद्युक्तं प्रभादाहेन तद्युता जा च दाहेन तद्योक्ता नित्या क्लिन्नान्दगद्वयं ये शानवाक्षरी नित्यः भेरुण्डा सर्वसिद्धिता प्रणवं तद्वयं त्यक्त्वा मध्यस्थैषभिरक्षरैः षडङ्गानि प्रकुर्वेद वर्णन्यासं ततः परम् रन्ध्राद्यामुकण्ठेषु पन्नाभ्यां धारयद्वयं न्यसेन्मन्त्रार्णनवकं मातृकान्यासपूर्वकम् अध्यानं प्रवक्ष्यामि देव्या सर्वार्थसिद्धिदं तप्तकाञ्चनसङ्काश्य देखां नेत्रत्रयान्विताम् चारुस्मितां चिदमूक्तिं दिव्यालङ्कारभूषितां ताडङ्कहारकेयूरत्नस्तबकमण्डितां रसनानूपुरोम्यादिभूषणैरदिसुन्दरीं पाशाङ्गुशौ चर्म उच्छा भङ्गौ गदा वह्निधनुशरान् करैर्दधानामासीना पूजायां मत्प्रसस्थिताम् शक्तिश्च तत्समाकारतेजो हेदिभिरन्विताः पूजये तद्वदभिदस्मिदास्या विजयादिप्राः पञ्चमीयसमाख्यादा भैरुन्धाख्या मुनीश्वर यस्या स्मरणादो नश्येद्गरलं त्रिविधं क्षणाद् यादुषष्टिद्विजश्रेष्ठ सा नित्या वासिनी तद्विधानं शृणुष्वाद्य साधकानां सुसिद्धिदम् भेरुण्डाद्यमिहाद्यं स्यानित्यक्लिन्नाद्यनन्तरम् दोऽम्बुशून्ये हंसाग्निह्युक्तमम्बुमरुद्युतम् हृदग्निना युधम् शून्यम् व्याप्ते न शुचिना च युक शून्यम् नभशक्तियुतं न वार्णेयमुदा हृदा विद्याद्वितीयबीजेन स्वरान् दीर्घान् नियोजयेत मा यान्तान् कान्याचरेत् सकराङ्गयोः नवाक्षराणि विद्याया नवरन्ध्रेषु विन्यसेद् व्यापकं च समस्तेन कुर्यादेवात्मसिद्धये सर्वस्वाभिद्यासु व्यापकन्याः समाचरेद् तत्त काञ्चन सङ्कास्यां चारुस्मेरमुखाम्भोजां विलस्सन्नयनत्रयाम् अष्टाभिर्बाहुभिर्युक्तां माणिक्याभरणोज्ज्वलां पद्मरागकिरीडांशु सम्भेदारुणिताम्बरां पीदकौशेयवसनं रत्नमञ्जीरमेखलां रक्तमौक्तिक सकं भिन्नस्तबकभरणोज्ज्वलां रत्नाब्जकम्बुपुण्ड्रेषु चाप पूर्णेन्दुमण्डलं दधानां बाहुभिर्वामै कह्लारं हेमशृङ्गकं पुष्पेषु माधुलिङ्गं च दधानां दक्षिणैकरैः स्वस्वनामाभिरभिदशक्तिभिपरिवारिताम् एवं ध्यात्वार्चयद्वह्नि वासिनीं वह्नि विग्रहं यस्या सुसिद्धिदाम् द्वितीयम् बह्वि वासिन्या नित्यक्लिन्ना नित्यक्लिन्ना च दुर्धकम् पञ्चमम् भगमालाद्यम् द्वितीयकम् नित्यक्लिन्ना द्वितीयं तृतीयं षष्ठ सप्तमौ अष्टमं नवमं चापि पूर्वं स्यादन्तिमं पुनः द्वयमेकैकमधजद्वयद्वयमधद्वयं मायया पुटिदं कृत्वा कुर्यादङ्गानिषटक्रमाद प्रत्येकं शक्ति पुडुतैर्मन्त्रार्णैर्दशभिर्न्यसेदृ श्रोत्रनाशवाग्वक्षो नाभिगुह्येषु चक्रमाद रक्तं रक्तां वरां रक्तगङ्कमाला रक्ता विभूषणां च दुर्भुजां त्रिनयनां माणिक्य मकुटोज्ज्वलां पाशां कुशामिक्षुचापं दाडिमी शायकं तथा दुभिर्ने दया सुप्रीति शीतल पश्यी सातके अस्त्र ष्कोण महीपुरे चक्र मध्य सुखासी स्मेरवक्सरोक्ति स्वस्विरावृता पेदमध्यगांहासने दफप प्रोदस्ताभिश्च शक्तिभिः वृद्धां ताभिर्विनोदानि यादायादादिभिः सदा कुर्वाणामरुणाम् भोधौ चिन्तयेन्मन्द्रनायकम् एषा दुःसप्तमी प्रोक्ता दूतिं चाप्यष्टमीं शृणु वज्रैश्वर्याद्यमाद्यं स्याद्वियदग्नियुधं तदः अम्बु स्यान्मरुदायुक्तं गोत्राक्ष्मा संयुता तदः त्रयो व्यासनशुचिना युध स्यात् तदनन्तरम् अत्यार्नां वह्निवासिन्या दोधी नित्या षड्दीर्घस्वरयुक्तेन विद्याया स्यात् षडङ्गमं तेनैव पुटितैरर्नैर्न्यसे श्रोत्रादिपञ्चसु षष्टकं नसि विन्यस्य व्यापकं विद्ययान्यसेद निताककालमध्याह्नदिवाकरसमप्रभां समप्रभां। च त्री क्षणामरुणाम्बरां नानाभरणसम्भिन्नदेहकान्तिविराजितां शुजिस्मितामष्टभुजा स्तूय मानां महर्षिभिः पाशं खेडं गदां रत्नचषकं वामबाहुभिः दक्षिणैरङ्गुशं खड्गं पट्टारं कमलं तथा दधानां साधकाभीष्ट धान्योद्यमसमन्विता ज्ञात्वैवं पृणयेद्देवीं दूरीं दुर्निधिनाशिनीम् इत्येषा कथिता तुभ्यं समस्तापन्निवारिणी श्रीकरी शिवतावासकारिणी सर्वसिद्धिता अथ ते नवमीं नित्यां त्वरितां नाम नारद प्रवक्ष्यामि यशो विद्याधनारोग्यसुखप्रदाम् आद्यं तु वक्निवासिन्या दूत्यादिस्तदनन्तरं हंसोधर स्वयं युक्तस्तेजश्चर समन्वितं वायुप्रभाचरयुता ग्रासशक्तिसमन्वितः हृदारयेण दाहेन वक्नि स्वाष्ठमं तथा हंसः युतो ग्रासश्चरयुक्तो द्वितीयकः द्वितीर्णादयुता नित्या त्वरिता द्वादशाक्षरी विद्याचतुर्धवर्णादिसप्तभिस्त्वक्षरैस्तथा कुर्यादङ्गानि युग्मार्णैः शक्रमेण कराङ्गयोः शिरो ललाडकण्डेषु कृन्नाभ्या धारके तथा ऊरुयुग्मे तथा जानुद्वये जङ्घाद्वये तथा पादयुग्मे तथा वर्णान्मन्त्रजा दशविन्यसेद द्वितीयोपान्द्यमध्यस्तैर्मन्त्रार्णैरितरैरवि कराद्यै शृणु तध्यानं सर्वसिद्धिविधायकम् श्यामवर्णशुभाकारां नवयौवन शोभितां द्वे द्विक्रमदष्टनाघै कल्पिताभरणोज्ज्वलैः ताडङ्गमङ्गदम् द्वद्रसना नु पुरं च त्वयि विप्रक्षत्रियविक्षूद्रजादिभिर्भीम विग्रहैः पल्लवां शुभसंवेदां शिकिपिच्चकृतैः शुभैः वलयैर्भुषितभुजां माणिक्यमुकुटोज्ज्वलां ि बर्हि कृदा पीडां तच्छत्रां तत्पदाकिनीं गुञ्च गुणलस्यद्वक्षकुचकुङ्गुममण्डलम् मण्डलाम् त्रिनेत्रां चारुवदनां मन्दस्मितमुखाम्बुजां पाषाम्बुशवराभेदिलस्यद्भुज चतुष्टयाम् ध्यात्वैवं तोदलां देवीं पूजये शक्तिभिर्वृतां तदग्रस्ता लुपकारी शरचापकरोज्ज्वला प्रसीदे बलदाने च साधकानां त्वरान्विदां। येषादु नवमे नित्या त्वरितोक्ता मुनीश्वर विघ्नदुःस्वप्रशमनी सर्वाभीष्टप्रदायिनी शुजिस्वेन युतस्त्वाद्यो रसावन्निसमन्वितः प्राणोऽद्वितीयस्वयुतो वनदुच्छक्रिभिः परः इति धिदा त्र्याक्षराख्या नित्येयं कुलसुन्दरी यस्या स्मरणमात्रेण सर्वज्ञत्वं प्रजायते िभिस्तैरुदितैर्मूलवर्णैकुर्यात् षडङ्गकम् आदिमध्यावसानेषु पूजाजप विधिक्रमाद प्रत्येकतैस्त्रिभिर्बीजैर्दीर्घस्वरसमन्वितैः कुर्यात् कराङ्गवक्त्राणां न्यासम्प्रोक्तं यथाविधि ऊर्ध्व प्राग्दक्षिणो दक्ष पश्चिमाद्धस्नाग्नभिः सुविनन्द्यन्तरस्थैस्तन्नदात्मसु आधार आधाररन्ध्र कृत्स्वेकं द्वितीयं लोचनत्रये तृतीयं श्रोत्रचिबुके चतुर्थम् णतालुषु पञ्चमं चां सनाभीषु तत्पाणिपदद्वयेन् मूलमध्याग्रदो न्यस्यवधा मूलवर्णकैः लोकितां लोकिताकार शक्तिं वृन्दनिषेविताम् शुका लोहितां शुकभूषास्रग्लेपनां षण्मुखाम्बुजाम् अनार्घ्यरत्नकटितमाणिक्य मुकुटोज्ज्वलां रत्नस्तबकसम्भिन्नलसद्वक्षस्थलां शुभां कारुण्यानन्दपरमामरूणाम्बुज विष्ठराम् भुजैर्द्वादशभिर्युक्तां सर्वेषां सर्ववाङ्मयीं प्रवालाक्षस्रजं पद्मं कुण्डिकां रत्ननिर्मितां रत्नपूर्णं तु चषकं लुङ्गीं व्याख्यानमुद्रिकां दधानां दक्षिणैर्वां पुस्तकं चारुणोत्पलम् में चले हईमी चलेखनी कंबुवरंुज देव गंधर्व सिद्धविद्याधरादिद यक्ष राक्षस कांति सिद्ध विद्या त्वैव वाग्लक्ष्मी सिद्धये, सिताम के मृदये केवलवाक्सीध्या विद्वीष्यई मृद निग्रहाय चीलाक स्मरे तपेक्षा इतमी नित्या प्रोक्ता ते कुुंदरी नित्या नित्यां तुदशमीं त्रिकूडां वच्मि साम्प्रतं हंसश्च हृत्प्राणरसदाहकर्णैः समन्वितः विद्यया कुलसुन्दर्यायोजितः सम्प्रदा यतः नित्या नित्यत्रिवर्णेयं षड्भिक्कूडाक्षरैर्युता प्रदिलोमादिभिरूपैर्द्वि सप्तदिभिधा मदा यस्या भजनदसिद्धो नरः स्यात् केजरसुखी निग्रहानुग्रहौ कर्तुं क्षमः स्यात् भुवनत्रये दीर्घस्वरसमेताभ्यां हंसहृभ्यां षडङ्गमं भ्रूमध्ये कण्डहृन्नाभिगुह्याधारेषु चक्रमाद विद्याक्षराणि क्रमशोन्यस्येद्बिन्दु युतानि च व्यापकं च समस्तेन विधाय विधिना पुनः ध्याये समस्तसम्पत्तिहेतोः सर्वात्मिकां शिवाम् उद्यद्भास्करबिम्बाभां माणिक्यमुकुटोज्ज्वलां पद्मरागकृताकल्पामरुणां शुकधारिणीं चारुस्मितं लसद्वक्त्र षट्सरोजविराजितां प्रतिवक्त्रं त्रिनयनां भुजैर्द्वादशभिर्युधां पाशाक्षगुणपुण्ड्रेक्षु चापकेडत्रिशूलकान् करैर्वामैर्दधानां च अङ्कुशं पुस्तकं तथा पुष्पेषु मम्बुजं चैव नृकपालाभये तथा दधानां दक्षिणार्हस्तैर्ध्याये देवी मनन्यधीः इत्येषैकादशी प्रोक्ता द्वादशीं शृणु नारद त्वरि तोयान्त्यमाद्यं स्याद्युदिदोहचरस्वयुगकृञ्जदाष्मा स्वयुधं वज्रेशी पञ्चमं तथा मरुत्स्वयुक्तो मध्याढ्यो दशम्या परतः पुनः भूमि रत्साक्ष्मा स्वयुधा वज्रेशीत्यक्ष्टमप्रमाद षडक्षराणि त्वरिता तृतीयं तदनन्तरम् द्युतिर्दाहचरस्वेन अस्या आद्यमनन्तरम् उक्ता नीलपदाकाख्या नित्या सप्तदशाक्षरी द्वे द्वे पक्षाक्षे षड्वर्णैर्मोद्धैरङ्गकल्पनम् श्रोत्रादिनाशायुगले वाजिकण्ठे ना कृतिक्रमाद नाभावाद्धारकेधापि पादसन्धिषु च क्रमाद मन्त्राक्षराणि क्रमशो न्यस्येत् सप्तदशापि च व्यापकं च समस्तेन विदध्याञ्च यथाविधि इन्द्रनीलनिभाम् मौली विराजितां। भास्वन्मणिमौलिविराजितां पञ्चवक्त्रां त्रिनयनामरुणां शुकधारिणीं दशहस्तां लस्सन्मुक्तामण्याभरणमण्डितां रत्नस्तपकसम्पन्नदेकां चारुस्मिताननां पाशम्पताकां चर्मापि शार्ङ्गचापं वरं करैः दधानां वामपार्श्वस्थैः सर्वाभरणभूषितैः अङ्कुष्य च तथा शर्तिखङ्गम् बाणं तथा भयम् दधानां दक्षिणैर्हस्तैराशीनां पद्मविष्टरे स्वभारवर्णवेशस्य पाण्यायुध विभूषणैः शक्तिवृन्दृदां ध्याये देवीं नित्यार्चनक्रमे त्रिषट्कोणयुतं पद्ममष्टपत्रं तदो बहिः अष्टास्त्रं भूपुरद्वन्द्वावृतं तत्पुरयुग्मसं चतुर्द्वारयुधम् दिक्षु शाखाभिश्च समन्वितम् कृत्वा नामामृतं शक्तिं गणैस्तत्रार्चयेच्छिवां येषा ते द्वादशी नित्या प्रोक्ता नीलपदाकिनी समरे विजयं कङ्गपादुकाञ्जनसिद्धिदा वेदालयक्षिणि चेडपिशाचादिप्रसादिनि निधानिलसिद्धान्नसाधिनी कामचोदिदा अधत्रयोदेशीं नित्यां वक्ष्यामि शृणुना रद रसो नभस्तद्धा दाहो व्याप्तक्ष्मा वनपूर्विका केन युक्दा भवे युक्ता भवेन्नित्या विजयैकाक्षरा मुने विद्याया व्यञ्जनैर्दीर्घस्वरयुक्तैश्चतुष्टयं शेषाभ्यां च द्वयं कुर्यात् षडङ्गानि कराङ्गयोः ज्ञानेन्द्रियेषु श्रोत्रादिष्वधचित्ते च विन्यसेद अक्षराणि क्रमाद् बिन्दुयुतान्यत् पूर्ववद पञ्च वक्त्रां दशभुजां प्रतिवक्त्रं त्रिलोचनां भास्वन्मुकुट विन्यासचन्द्रलेखविराजितां सर्वाभरणसंयुक्तां पीदाम्बरसमुज्ज्वलाम् उद्यद्भास्वद्बिम्बतुल्यदेहकान्तिं शुचिस्मितां शङ्कं पाशं केडचापौ रं वामबाहुभिः चक्रं तथाङ्कुशं खड्गं सायकं मातुलं गकम् दतानां दक्षिणैर्हस्तैर् प्रयोगे भीमदर्शनाम् उपासनेधि सौम्यां च सिंहोपरि कृतासनाम् व्याघ्रारूढाभिरभितशक्तिभिः परिवारिता समरे पूजनेन्येषु प्रयोगेषु सुखासनां शक्तयश्चापि पूजायां सुखासनसमन्विताः सर्वदेव्याः समाकारमुखपाण्यायुधा अपि चतुरस्रद्वयं कृत्वा तदुर्वारोपशोभितं शाकषट्कसमुपेदं तत्र प्राग्व समर्चयेद् तदन्धर्वृदयुग्मान्धराष्टकोणं विधायतु तदं तश्च तथा पद्मं तथैवच्छदपद्मं वीथायावाह्य तत्रतां तत्तच्छक्रियावृदां सम्यगुपचारैस्तथार्चयेद येषा त्रयोदशी प्रोक्ता वादे युद्धे जया जयप्रदा चतुर्दशीं प्रवक्ष्येद नित्यं वै सर्वमङ्गलाम् हृदम्भुवनयुक्तं कं नित्या स्यात् सर्वमङ्गला एकाक्षर्यनया सिद्धो जायते के जरः क्षणाद षड्दिर्काढ्यां मूलविद्यां षडङ्गे सुप्रवीण्यसेद तां नित्यां जातरूपाभां मुक्ता माणिक्यभूषणां माणिक्यमुकुडां नेत्रद्वयप्रेङ्ख दयापरां द्विभुजां शासनां पद्मे त्वष्ट षोडशतत्त्वयैः पत्रैरुपेते स चतुवारं भू सत्मयुक्मके मातुलुङ्कफलं दक्षे दधानां करपङ्कजे वामेन निजभक्तानां प्रयच्छन्तीं धनादिगं स्व मानाभिरभिदशकृतिभिपरिवारितां षट्सप्तादिभिरन्याभिरप्सरोद्धाभिरन्विता प्रयोगेष्वन्यदा नित्यं सपर्य सूक्तचक्रितां येषा चतुर्दशी प्रोक्ता तथा पञ्चदशीं शृणु भूशून्यं नभसा भूश्च रसश्चाध स्थिराम्बुज रयोग्निना युदिज्याम्बु मरुद्युक्ता रसा मरुद नभश्च मरुदा, मरुदा युक्तं रसा शून्येऽपि संयुते गोत्राचरेण सहिता अम्बुपूर्वाक्षरस्तथा अम्बु अग्निहृञ्ज दाहाम्बुरसक्ष्मारय हृत्स्वयं हृत्स्वयुक् हंसश्च मरुता दाहप्राणश्च मरुता युतः दाहसाग्निप्राणचरौ ज्यामरुत्सहितारयः शरेणाम्बुज गोत्राकृत्साग्निर्ज्याम्बुरसा स्वयुक् प्रयसाग्निर्ज्याम्बुरसा पुनरेदे जी तदः दाहेनानेन ना ते द्विष्याद्भस्वोदाह मरुत्स्वयुक् हंसः सदः वह्निस्वो दाहक्ष्मास्वयुतश्च सह सप्तदाहस्ततोस्युरष्टमाद्यास्तु पञ्चते उपाप्त्याीलपदाकाया अनन्तरं त्वरिता त्वं च भेरुण्डाष्टमं च नवनं तथा साज्वाला मालिनी नित्यात्रिषष्ठ्यार्ना समेरिधा येगद्वय चतुः पञ्च चतुष्टयदशाक्षरैः कुर्यादङ्गानि मूलार्नैरादेत षट्कराङ्गयोः शेषैस्तु व्यापकं कुर्यात्ततो ध्यायेत् सनातनीं ज्वलज्ज्वलनसङ्काश्यां माणिक्यमकुटोज्ज्वलाम् मा षड्वक्त्रां त्वादशभुजां सर्वाभरणभूषितां पाशाङ्कुशौ खड्गखेटौ चापबाणौ गदादरौ शूलवह्निवराभिधि दधानां पपपङ्कचैः स्वप्रमाणाभिरभितशक्रिभिपरिवारितां चारुस्मितलसद्वक्त्रसरोजाम् त्रीक्षणान्वदां ज्ञात्वैवमुपचारैस्तैरर्चयेतां तु नित्यशः चतुरस्रद्वयं कृत्वा चतुर्द्वारसमन्वितं स शाखमष्टपत्राब्जमन्तरा त्र्यस्रकं ततः षट्कोणं मध्यतस्त्र्यस्रं विधायात्र येषा पञ्चदशी प्रोक्ता षोडशीं शृणु नारद वायुप्रणवतत्वस्तु चित्रा स्यादक्षरद्वया या सिद्धा धनधान्यात्मनिधिलाभाय कल्प्यते विद्याद्य वायुना कुर्या दीर्घस्वरयुजाक्रमाद षडङ्गानि यथा पूर्वमादृकां उद्यदादित्यबिम्बाभां नवरत्नविभूषणां नवरत्नगिरीटां च चित्रपट्टां शुकोज्ज्वलां चतुर्भुजां त्रिनयनां शुजिस्मिदलसन्मुखीं सर्वानन्दमयीं नित्यां समस्तेऽप्सिददायिनीं चतुर्भुजेषु वैपाशमङ्गुशं वरदाभये दधानां मङ्गलं पद्मकर्णे कायोनिमध्यगां तच्छक्तिभिश्च तच्छक्रे तथैवार्चनमीरितं प्राणदाहौ धरायुक्तो पुनराद्यं रस्ये मरुत व्यासं मरुचक्रियुतं भूस्वयुक्ता ततस्त्रयम् अस्या आद्यां रसयुक्मम् चरणेन प्रयोजितं दाहेन वह्नि शक्तिभ्यां युधो हंसस्ततः परं नभो दिर्कृत्सदाम्बुज्या शून्यं स्वेन संयुधम् अम्बुपश्चाद्विषयुक्तं मरुतादु नभोयुधं शून्यं व्याप्तं भुवा हंसफूर्वां द्यौ स्यान्मनुत्रयम् स्यात् षष्ठाधिपञ्चार्णा दैत्या स्यादाद्य ईरिदः ये पादशाक्षरा दन्द्या द्वितीयखण्ड ईरितः तृतीय पञ्चविंशार्णप्रोक्ता मन्त्रा इति क्रमाद बालाबीजत्रयाद्यस्त्रिभिर्मन्त्राय षडङ्कम् नग्राम, विकीर्णकुन्तलां नग्रां रक्तामानन्दविग्रहां तथानां चिन्तयेद्बाणचापपाशृणीकरैः तत्समानायुधाकारवर्णदेव्यास्तु बा ऋतुस्रादास्फुरद्योन्यः सदानन्दा ऋक्नेक्षणाः इत कुला प्रोक्ता चंद्रवी स्वयं वाराहीमदाया ललिताया परा तनु शुचिस्वेनाथशन्य स्रसे पच्चाद्रय साग्नेर अबुपच्चाद्रयसा मूतांबू तथा यलसायुतोऽग्निरेदानि पुनरम्बुमरुद्युतं दाहाम्बु मरुदा हंसस्त्वग्निर्नैदत्रयं पुनः अम्बु दाहौ मरुद्युक्तौ हंसोध धरया नभः तेजोऽग्निना पुनः पञ्चवादस्वेन समायुधः तोयं चरेण तत्पूर्वं तोयमग्नियुतं तदखां शून्यं व्याप्तेन शुचिना शून्यं शक्त्या नभो युधं दाहो धरा स्वहरितस्तोयं चरसमन्वितं एतत्पूर्वमधु प्रोक्तं चतुष्टयमतः परं ज्याख्येन युक्ता सचरो रभश्चैतस्य पुनः प्रोक्तं चतुष्कापयं तदः शुभोभ्रदा चरेणापि हंसस्वेन सपूर्वकम् हंसोऽग्निना प्राक् हृदयं हृदयं स्वसमायुधं रसश्चरेण तत्पूर्वमग्निना च रसोयुधः पश्चादुक्तत्रयं वादो धरयाज नभोऽन्वितं प्राणस्वेन युतः पश्चाद्धृतयस्वयुतं रसः व्याप्तमेधत्रयं पश्चाद्दाहेनाम्बुसमन्वितं गोत्राभरायुधा स्पर्शो नादयुक्तो जवीयुतः दाहेन ना पूर्वपूर्वं च पूर्वं च मरुतायुतं शून्यं मरुत्स्वसखितं हृद्दाहेनाम्बुनाचरः स्पर्शो मरुत्स्वसहितो हृद्दाहेनाम्बु संयुधं ज्ञेष्व संयुधो हंसस्तदाम्बुमरुदा सह हृद्रूपेण वाग्हयुक्तमम्बुस्याद्दिषष्ठ्या सस्वसंयुगं को वद्विरुक्तवर्णौ च शुद्धिश्वेन युतस्तथा स्थिरा रसावतस्वेन दावौ हंसौ धरास्वयुग युतिर्नादवधि पश्चादृतम्बुमरुदा युतं हंसश्च मरुदा, मरुदा विद्या दशोत्तरशताक्षरी वाराही पञ्चमी विश्वविजया भद्रकौमुदी वार्तालीदिजविख्याता स्तम्भनाद्यखिलेष्टदा अङ्गानि कुर्यान्मन्त्रार्णैः सप्तभिषड्भिरेव दशभिः सप्तभिः सप्त सङ्ख्यैर्जादिभिर्दिदाभा त्रिकोण वृत्तषड्कोणवृत्तद्वयसमन्वितं विधाय चक्रं तत्रैव स्वनामालिख्य पूजयेद् ध्याये च देवीं कीलास्यां ततः काञ्चनसन्निभाम् आकण्ठं वनिताजूपां ज्वलत्पिङ्ग सरोरुहं त्रिनेत्रमष्टहस्तां चक्रं शङ्खमधाशलं शीर्षमभयं वरदं दद्धा दधानां गरुडस्कन्धे सुखाशीनां विचिन्दयेद नित्यपूजासु तच्चक्रीस्तत्समाना स्मरेन्मुने प्रयोगेषु स्मरे, स्मरे देवीम् ंहस्तां व्याघ्रगामपि गजारूढां हयारूढां तर्श्यारूढां च शक्तिभिः श्यामाप्यरुणां पीतामसितां भोजविग्रहां तत्तत्प्रयोगेषु ताद तथा ध्याये तत्तदवस्तये अरुणां पञ्चमीं वश्ये सीताम् स्तम्भनगे स्मरेद श्यामां च दुर्गमे मार्गे सिदं युद्धेरिनष्टये धूम्रामुच्चाडने ध्याये साधको द्विजसप्तमः यदा षोडशनित्यास्ते सङ्क्षपात्समुदीरिताः भजदामिष्टदा सद्य सर्वपापक्षयङ्कराः यदि श्री बृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे राधादिमन्त्रनिरूपणं नामाष्टाशादि नामाष्टाशीदि तमोध्यायः ओम्